इन्द्रावज्रमुदयच्छत्सभत्रा वज्रादुर्यदादभिषेच्छ प्रहार अस्ति वा इदं मयि वीर्यं दत्त प्रदास्यामे जलस्वा वक्षम् प्रायच्छत्तस्मै द्वितीयमुदयच्छत्वा ब्रहेण्मा मे प्रहारस्ति वा इदं मयि वीर्यं दत्त प्रदास्यामे जलस्वा वृक्षमेव प्रायच्छत्तस्मै द्वितीयमुदयच्छत्त वैष्ट्रहेष् स्मामेव प्रायच्छत्तर्मायम् भूतमह न ज्ञो हि तस्य मायासेन्द्रियमेव तद्धेर्यम् यजमान ध्यालव्यस्य मन्द इन्द्राय क्षगौ हृदगौ सोमा अन्वायं जिरस्मादात्मा चलन्वे जलस्मादेकञन्तं जिरस्मादेको बहूनां भद्रभव जलस्मादेको बह्मेर्जायाविन्दामयेत्मानं यज्ञैनात्मजमित्यन्तराहवनीयञ्च व्यर्धानं जलष्ठन्दवमेव यज्ञ शेनापयि कामय यपय योह निष्ठ मननेलमा येनापयिगरी कामय जल सैनापये सैनापये आयुर्वागेतज्ञस्य य ध्रुवमुत्तमो ग्रहाणाम् लिख्यते तस्मादायः प्राणानामुत्तमम् मानुधानम् दिव अर्जिम् इत्याहमोरुधानमेवैनसमानानानु वैश्वानलवज्ञमित्याह वेश्वानलयो हि देवतयायुर्भयदो वैश्वानरो लिख्यदेतस्माद्भयदः प्राणा अधस्ताच्चपरिष्टाधिनोन्वे ग्रहानित्यन्दे भवत्तस्मा लभ्यमान् प्राणो प्राणानामोक्ते गृह साध्यन् ध्रुवत्तस्माद्रान्ति ध्रुवश्च ध्रुवक्तत्मा होतायद्ध्रुवनयत्यात्मन्नेव यज्ञस्यायुर्दधादि पुरस्तादुक्तस्याः पुरस्ताध्यायुषोभुङ् मध्यलो मणि गित्याहरु मध्यमेण चाविडो भुङ्कमुत्तराभ्य मणि गत्याहरुद्रवेण काविड भुङ्के मैश्वदेव्याभिधस्यमानाया पवनैरवेश्वरे प्रजा, प्रजा, प्रजा यज्ञे न मे देवास्वर्गम् लोकमायन्ते मञ्जन्तमनुष्या न भविष्यन् दे निसरेण योपयित्ता सुवर्गम् लोकमायन्दमृशयतुर्ग्रहे देवानु प्राजानयतुर्ग्रहायम् दे सुवर्गस्य लोकस्य प्रज्ञा द्वादश निर्त्यम् दे द्वादश मासा संवत्सरस् संवत्सरस्य प्रज्ञा ते जः प्रथमो वित्येते सहोत्तमो तस्माद्वौ द्वाभृतो र्त्वा हष्वादवर्दोणेव प्रीणा कृतभिर्दुष्ट पशोन् प्रीणा निद्यः पुनर्हत्यपदगेव प्रीणा कृदनात् प्रेष्य ऋषट्कर्त्वा हत्यभिस्मात् चतुष्पादः पशवर्जोनुपजीवं निद्यः पुनर्हतस्माद्विपादस्तनः पशोनुपजीवं त्रदनात् प्रेष्य ऋषट्कर्ताह ृदाक्रमणमेप्रपद्ये दत्त ऋतुमनः प्रपद्ये दत्तमो मोहकास्य प्रसिद्धमेवर्यर्दक्षिणेन प्रपद्यते प्रसिद्धं हृदि प्रस्तादोत्तरेणमासो दक्षिणेनषदुत्तरेण वयामृजीतो त्याहास्ति त्रयोदशो मासयित्या हस्तमे पदप्रीणाति स्वर्गाय मा ये च लोकाय कृत्यम् ते द्राज्योन्द्राज्ञेन्द्राज्ञ मात्रेण गृह्णादि उपरिष्टानि वर्गस्त लोकश्चालख्यात्याो भुजौ वा ये नो देवानागीन्द्राग्नमोदेव वरुन्देवैश्वत्रेण ग्रन्धाय वैश्व प्रजा असामाहित्य शुक्रायद्वेश्व शुक्रपात्रेण ग्रन्धाजितस्मादसामाहित्यः सर्वा प्रजा प्रत्यङ्गुले जितस्मात् सर्व एव मन्य देवाम् प्रत्युदघात्रिवैश्वरेवगुम् शुक्रपात्रेण गृह्णादि वैश्वदेव्यो वै प्रजास्तैज शुक्रो यद्वैवेश्वदेवगम् शुक्रपात्रेण गृह्णाति प्रजास्तेव तैलो दधारी स्तां विद्येन माच्छन्दिने सवने वृत्रमहनयन् माच्छन्दिने समने मरुत्वदीया गृह्यन् देवाघ्ना ये यजमानस्य गृह्यन्ते तस्य वृत्रञ्जघर्नो मह्यं सरदपाक्रेण मरुत्वदीया न गृह्णात्ततो वै सरतोन् प्राजानादुरुपाक्रेण प्रज्ञा देवज्रम्भा एतन् व्यजमान भ्रादुर्याय प्रहरति यन्मरुत्वति या उदेव प्रथमेन गच्छति प्रहरति द्वितीयेन स्मृति तृतीयेनायुधं मा एतद्यजमानसुरुते यन्मरुत्वती या प्रथमेन धत्ते विसृजति द्वितीयेण न्द्रो वृत्रगौहत्वागच्छदपाराधमिज मन्यमानः स हरितो भवत्सगेता मरुत्वदीजानात्मस्मरणानपश्यक्तान गृह्णेन प्राणमेव प्रथमेना कृणुतापानन् वितीयेनात्मानन् तृतीयेनात्मस्मरणावायेते विद्यमानस्य गृह्यन्ते यन्मरुत्वदीया प्राणमेव प्रथमेन स्मृमृते पानन् द्वितीयेनात्मानम् तृतीयेनेन्द्रो वृत्रमहन्तम् देव अब्रुवन् महान्वा अयम भोद्यो वृत्रममवधीजितन् महेन्द्रस्य महे नत्वकुम् सेणम् माहेन्द्रमुद्धारमुदहरत वृत्रगुंहत्वान्यासु देवतास्वधियन् माहेन्द्रो गृह्यतमुद्धारमेवतम् यजमानमुद्धरतेऽन्यासु प्रजास्वधि शुक्रभा त्रेण गृह्णादि यजमानदेवत्यो वी माहेन्द्रो <स्थियों> तेन शुक्रोयन् माहेन्द्रगुं शुक्रभा त्रेण गृह्णादि यजमानगेवते ज्योदधारी अदयः पुत्रकामाधाभ्यो देवेभ्यो ब्रह्मौ दनमवधत्तस्या उच्छेदनमलदुस्तप्राष्टात् सारेतो धत्त तस्ये चत्वारः दिप्त्या अजायन्तसा धीयमवधत्सामन्यतोच्छेदनान्महिमे प्राजिष्यामेतोसि जातुम् सोचनिष्यन्त किष्टा रेतो धत्त तस्येऽ्यर्थमान् रमजायत सात्येभ्यजे पतति रमवत् भोगायमयुजग्व्यश्रान्तमस्ति विषे ब्रवन्वरम् वृणामहे योतोजायाता अस्माकं ो योगिजते स देवानां भोगाय भवति देवावि यज्ञाभुद्रमन्तराय सात्यान्वाक्रमदे द्विदेवत्या प्रावध्यन्त तान् न प्रतिप्रायच्छन्तस्मादपिवध्यम् प्रपन्न प्रति प्रयच्छन्ति तस्माद्विदेवत्वेभ्यादित्यो निर्गच्छते ेषणातेगृह्णाति माता पिता पुत्रस्तदेवदम् मिथुनमुर्गम् गर्भो जरायुतदेवदम् मिथुनम् पशवो वा एते यदा नित्यवोर्धधि मध्यतो दधातिशतादङ्क्येन मेभ्यत्वाय तस्मादा वा यदा नित्यः Also, ै पशोन् गृह्णाति पशवो वा एते यदा नित्ययेतरुद्रो विदव्य परिश्रुज्य गृह्णाति रुद्रादेव पशोनन्तर् तथा एव स्वानादित्यो यदि पाकं सुसवनः स एतमेव सोमपीठं परिशया तृतीयवनात् वस्मादित्येचते सोमपीठ इत्याहमिवस्पन्तमेवादित्यगं सोमपीठेन समर्थयधियादिव्याश्च श्रेणामेति वृष्टिकामस्य श्रेणीया वृष्टिमेवावगन्धे यदि ताजप्रस्कन्धर्षुकः पर्जन्यस्य यदि चिरमवर्षुको न साधगत्य सन्नाद्य प्रजा प्रजायन्ते नानवषण्याम् प्रजान्वदयन्न क्षेतचक्षुरस्य प्रमाणिक्रयात्तस्मान्नान्वेक्ष्यः अन्तर्यामपात्रेण सावित्रमा क्रीणाद् गृह्णाति प्रजापदर्वा एणयदा क्रीण प्रजानाम् प्रजरणायनसाधनत्य सन्नाद्य प्रजा प्रजायन्ते नानद्रम् प्रजा अन्वसृजय देशवेगायत्र देवानां यत्सवितेषगायत्र ये लोके कृत्य क्रीणो यदन्तर्जामपात्रेण विक्रमाग्रेणा गृह्णाति स्म देवेन योने गृह्णाति विश्वे देवास्तृतीयगुं सवन नोदयक्षन्तेधितारं प्रादस्वनपादकुं सन्तं तृतीयसवनमभिपर्यनयन्ततो वेदे तृतीयघुं सवनमुदयच्छनयत्तृतीयसवणेधा वित्र गृह्यते तृतीयस्य नवनस्याद्यतेधवितृपात्रेण वैश्वर्य करभागृह्णादि वैश्वरेव्य प्रजा वै स्वदेवः कलशः सविता प्रसवानामीशेत्सवितपात्रेण धर्मा जगदुर्परिष्ठाननित्याह मनुष्येभ्य देवेदेन करोति बृहदित्याह देवेभ्यदेवेदेन करोति न मैत्याः विदुर्भ्य देवेदेन कर एतावतेर्वै देवतास्ताभ्यदेवेभुम् सर्वाभ्यो गृह्णाच्येषते यो निर्विश्वे भ्रष्टेभ्य दिव्याह वैश्वरेव केलः प्राणोपायेष यदुपाकुं सुर यदुपागुं सुपात्रेण प्रथमस्तो तमश्च गृह्येते प्राणमेवान प्रयन्ति प्राणवनोग्यन्ते प्रजापदर्वा क्रेण प्राणवपाकुं सुपत्नी प्रजा प्रजनयन्ति यदुपाकुं सुपात्रेण पात्रे पदमा क्रेणा गृह्णाति प्रजानाम् प्राणं प्रजा प्रजायन्ते देवा वा इतैकपत्ने सुवर्गं लोकमधिगागुंसन्ते सुवर्गं लोकन्न प्राजानन्तरे तम्पा त्रिपदमपश्यन्तम गृह्णतरतोर्गं लोकं प्राजाधयुपाः त्रिपदो गृह्यते सुवर्गस्य लोकस्य प्रज्ञा एषतो बोधातिष्ठतस्थेभ्यो गृह्यमाणस्त वज्रं कृत्वा ढन्तरेन्द्रियम् भूतम गृह्णन्तस् ेनाजवेन कृत्वा गृह्णात्युपयाम गृहेयं वा उपयामस्तस्मादिजायन्ते बृहस्पतिसुश्रित्याह ब्रह्म वेदेवाना बृहस्पतिर्ब्रह्म नैवास्मै प्रजा प्रजलयतेन्दोहवेदो वायिन्दोरेतधा वयित्याः प्रजा वायिन्द्रियम् प्रजायेमास्मे प्रजनयत्यज्ञार्वैरे पत्नी भयित्याः मिदहत्त्वाय सजोदेवै हत्पक्वामम् विवेत्या हत्वक्वासूनाम्य सुनानायुं रूपकर्पमेव अविषदधाय देवा ष्टालमधिघागुं सपलते प्रावद्य ददन्न प्रति प्रायच्छन्तस्मादभिमर्ध्यं प्रपन्न प्रति प्रयच्छन्ति तस्मात् पात्रे वदेत्पष्ट्रेऽपि लिख्यते न साधयत्य सन्नाद्य प्रजायन्ते नानवषट्करोगद नवषट् कुर्याद् रुद्रं वदा अन्ववदनेद्यन्नानुवषट्कुर्यादसान्तमज्ञेत् सोमं भक्षयेत् पाकश्व नवषट्करो जनरुद्र प्रजा अन्वसृजति शान्तमग्नि सोमम् भक्षयत्यग्नेन्द्रेष्टरूपसमासे जनेष्टपत्नी मुदा नेत्याहाग्ने देवनेतो तथा जने तावत् गात्रा सङ्ख्यापयति प्रजापजल् प्रजानायाम् प्रजननायापौ प्रवर्तय जनेतेव न सिन्धत्योरुणोपप्रवर्तयत्योरुणाहिरेतसिच्यते न्यञ्जत्यौरव प्रवर्तयति यदापूर्व भवत्य सपि सदेव भवतो धृत्यदर्थ प्रजाः प्रजायन्ते इन्द्राभृत्रमहन्तस्य शीर्षकपालमुदौ जो न ष्यामि यन्न भोष्यामि यज्ञवेशतं करिष्यामेतं भोतं ज्यो जनग्रश्रेणादित्वा भोतं जक्वेभिश्वेना एतावते मधुघा भवन्ति ुरेता वा इन्द्रस्य कामधुखास्माद्वामे वा इन्द्रस्य हरे त्वामपाणोत परिधय आधान्यः प्रकृत्य परिधेन्दुभयादन्तराधानाभ्यां घातं प्रयच्छेत् प्रकृत्यपरिधेन्दुहोजनिराधानाभ्यामेव घातं प्रयच्छ त्वं नेताजहोदयातयामेवर्यगाकृतो जुहालविक्रम्यहेन्द्रमः पजवो भुञ्जन्तौपरिक्षणयन्नसं भिन्द्या भवयेन पजवो भुञ्जन्तौपलक्ष रन्मनसाकम् वासदुभयङ्करादेवेन पशव भुञ्जन्तौपलक्ष न्देतर्यवविन्तेपदत्र सोऽपेशस्तमेवावरुन्धतमुत्तरवेव्यान्निवपति पशवो वावुत्तरवेलिः पशवो हारियो वा पशुस्वेव पशून् प्रतिष्ठापयन्ति ग्रहालपालप्रजा पशव प्रजायन्तव वा विष्वन्तर्यामावजा वयशुक्रान्त्यग्रहालय ग्रहादि च ग्रह्यावाय च ग्रह भोयष्ठाभग्भर्ग्रह्यते तस्माद् ग्रहः पशूनां भोयिष्ठा यत्र पागोजगौ हस्तेन विगृह्णाय तस्माद् गोत्रेण च जनयत्यथावज भूयसे पितावाजेषयदाग्रेण पुत्र कलशो क्रेणवपदस्य कलशा गृह्णीजातथा पिता पुत्रं क्षितौ पथापति तादृकेव तद्यकलश पदस्येताग्रेणान् गृह्णीयात्यथा पुत्रः पितरं क्षितौ पथापति तादृगेव तदात्मा वा एतयज्ञस्य यदा क्रेणो यद्ग्रहो वा कलशो वा पदस्य यदा ग्रहीणान् गृह्णीयात्मनदेवाधियज्ञन्यष्करोज्ञातो वा गृह्णादि वा युव्येन गर्भेणा विज्ञातेन ब्रह्म पृथमुपयन्ति पुराः सन्तित्वा युव्यादिहरन्ति तस्मास्त्रियम् जाताम् पराः सन्त्यत्वमागं सरन्ति यदाहयतावस्तर आहरति तादृगेव तद्यग्रहम् गृह्णाति यथावस्तत आहृत्य यज्ञस्य नाम् नागिजुजा तदृढम् पुरस्तादुपया युजा यज्ञन्त उपरिष्टा प्रजायज्ञस्य धृत्तेः प्राण्यानि पात्राणि युज्यन्ते नान्यानि यानि पराजीनानि प्रयुज्यन्ते इमेव लोकमपि जयति पराय भक्ष्यसौ लोको यानि पुनः प्रयुज्यन्ते इम मेवतेर्लोकमभिजयति पुनः पुनर्भक्षोकः युज्यन्ते नान्यानि यानि पराजीनानि प्रयुज्यन्ते तान्यन् वोढुदयः पराभवन्ति यानि पुनः प्रयुज्यन्ते युज्यन्ते नान्यानि यानि पुनराजीनानि प्रयुज्यन्ते तान्यन्वारण्याः पशवोरण्यमुपयन्ति यानि पुनः प्रयुज्यन्ते तान्यनुग्राम्याः पशवो ग्राममुपावयन्ति यो वै ग्रहाणां निदानं वेद निदानमान् भवत्याज्यमित्युक्तं तद्वै ग्रहाणां निदानयतु भागुंशुंशुपागस्वन्तर्गामयोर्युच्छैस्त्रहाणामेतद्वै ग्रहाणां निदानयैव भवति यो ग्रहाणाम्यसनम् वेदप्रजया वसुभिर्म सुनैर्व्यायते स्थानेऽभिरन्येन्द्रहा निश्चन्दे वा ग्रहाणाम्य शनै देवम् वेदप्रजया वसुभिर्म्यनैर्व्यायधगेन्दस्तष्टोगमवेदः आत्मन्नारमणन्नाविन्दत्स गेतामनुसमनम् रोनादो नवश्चैर्वैता तस्मादनुसवनम् पुरोडाशानुप्यन्ते तस्मादनुसवनम् पुरोडाश्राश्मीजावारपणम् कुरु देनै ब्रह्मवायरावदन् जनचालिपङ्किराप्यते धै यज्ञस्य वान् तत्त्वमिति धाना करम्भः परिपापः पुरोडाश पयस्या तेन पङ्किराप्यते तद्देश्यस्य पान् तत्त्वम् ओ